Woo-hoo! <laughs> न लक्ष्मीं भजे कनकधारां धनलक्ष्मीं घनलक्ष्मीं भजे कनकधारां मनसा सिरसा नमामि मामि माङ्गल्यविवर्धिनीं धनलक्ष्मीं घनलक्ष्मीं भजे कनकधारां धनलक्ष्मीं घनलक्ष्मीं भजे कनकधराम न कदा कनक धारा मन सह सिसा ौख्य प्रवर्तिनि धनलक्ष्मीं घनलक्ष्मीं भजे कनकदारं धनलक्ष्मीं घनलक्ष्मीं भजे कनकदारं मनसा सिरसा न मामि धनलक्ष्मीं घनलक्ष्मीं भजे कनकदारां धनलक्ष्मीं घनलक्ष्मि भजे कनकदारा